मुण्डकोपनिषत् तसम प्रथमं मुण्डकं प्रथमः खण्डः श्रीगुरुभ्यो नमः हरिः ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्ये माथभिर्यजत्राः चिरैरङ्गै एतुष्टुवागंसस्तनूभिः यशेम देवहितैजदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्ठनेविः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ ब्रह्मादेवाना आं प्रथमसं विश्वस्य कर्ता भुवनस्य गुप्तां स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह अथर्वणेयां प्रवीं प्रवदीत ब्रह्माथर्वातां पुरोवाचां गिरे ब्रह्मविद्यां स भारद्वाजाय परावरम् सौनको ह वै महाशारोङ्गिरसं विधिवत्सन्नः प्रपक्षं कस्मिन्नो भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तस्मै स रेविद्ये नेविद्ये वेदितव्ये इति हस्म यद्ब्रह्मविदो वदन्ति परा चैवापरा तत्रापरा ऋग्वेदो यजुर्वेद स्वामवेदोऽथर्ववेदशिक्षाकल्पो व्याकरणं निरुक्तं छन्दो ओ ज्योतिषमिति अथ परायया तद्व्रङ् अधिगम्यते यत्तद्रैश्यम् अग्राश्यम् अगोत्रम् अवर्णम् अचक्षुश्रोत्रं तत्पाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा आह यथोर्णनाभिसृजते गृह्यते च यथा पृथिव्याम् ओषधय यथा सतपुरुषाद्के सलोमानि तथा क्षरात्म सम्भवन्ती अन्ना तपसाचीयते प्राणो ततोऽर्णमभिजायते अन्नात्प्रालोमनसत्यं लोकाकर्मसु चामृतं य सर्वज्ञ सर्वविद्यस्य ज्ञानं मयं तपः तस्मादेतद्ब्रह्मनामरूपमन्नं च जायते द्वितीयः खण्डः तदेतस्सत्यं मन्त्रे सुकर्मा आली कवयो यान्यपश्यं स्थानि त्रेताया आं बहुधा तान्या आचरथनियतं सत्यकामा एष वपन्था सुकृतस्य लोके यदा लीलायते शरति समिद्धे हव्यवाहने तदा आद्यभागावन्तरेणाहुतिः प्रतिपादयेन् यस्याग्निं होत्रमदर्शम् अपौर्णमासश्चातुर्मास्यमनाग्ग्रहणम् अतिथिर्वर्जितं च अहूतमें वैश्वेमधिमा सतमस्तोका निनस्ती काली कराी च मनोजवा चुहिता या चुद्रुम रवर्णा सुलिंग विस्वरुची देवी लीलायम सप्तजी प एते सूर्यश्च रतिभाजमाने सूयथा कालं चाहुतो यो यादयन्तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानाम् पतिरेकोधिवाचः ये हे शीतितमाहुतय सुवर्चसः सूर्यस्य रश्मिम्भिं यजमानं भन्ति प्रियां वाचमभिवदन्त्यो ओर्चयन्त्य एव एष वा पुण्यसुकृतो ब्रह्मलोकः प्लवाहे ते अजृणा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म एतं श्रेजो येऽभिनन्दन्ति ते पुनरेवापियन्ति अविद्यामत वर्तमान स्वयं धीरा पंडित मनम जगन्ना पर मूढ़ा अंधेन लियम सांधा अविद्यां बहुधा वर्तमान वैमारा मे बा यत्किर्मिणो न प्रवेदयन्ति रागा आत्तिनातुराचीन लोकास्तिमन्ते इष्टाप्लुतं मन्यमानावरिष्ठं नान्यथ्रेयो वेदयन्ते प्रमूढा ना न कश्च पृष्टेते सुकृतेन भूत्प्रेमं लोकं हीनतरं वा वशिं तपः श्रद्धे येषु पुवन् सन्तरण्ये शान्ता विद्वांसो भैश्चचर्यां चरन्तः सूर्ये द्वारेण ते विरजा आ पुरुषो शव्ययात्मा परीक्ष्यं लोकान् कर्मचितान् ब्राह्मणो निर्वेदयां निर्वेदमायान्नात्यकृतकृतेन तद्विज्ञानार्थं स गुरुमेवाभिगत्ये समित्प्राणी श्रोत्रियं ब्रह्मनिष्ठं तस्मै स विद्वानुप्रसन्नाय सम्यक् प्रशान्तचित्ताय समन्विताय येनाक्षणं पुरुषं सत्यं प्रोवाच तत्वे तत्त्वे तत्त्वतो ब्रह्मविद्याम् द्वितीयमुण्डकं प्रथमः खण्डः तदेतस्सत्यं यथा आसुलिप्तात् पावकाद् विस्फुलिङ्गाः सहस्वस प्रभुवन्ते स्वरूपा तथा अक्षराद्विविधा सोम्यभावा प्रजायन्ते तत्त्व चैवापियन्ते दिव्योषमृतपुरुषसव्रापाह्या आभ्यन्तरोषयः अप्राणोशमना शुभ्रोह्योऽक्षरा आत्परतः परः एतस्मा आज्जायते प्राणो मनः सर्वे इन्द्रियाणि च कं वायुर्ज्योतिराप पृथिवी विश्वस्य धारिणीम् अग्निर्मर्धा चक्षुषीचन्द्रसूर्योदिषस्तोत्रे एव वाग्मृता आश्च वेदाः वायुप्राणो हृदियं विश्वमस्य पद्भ्यां पृथिवी चे सर्वभूतान्तरात्मा तस्मादग्नि समिधो यस्य सूर्यसोमा आत्पर्जन्य ओषधयपृथिव्यां पुमाण्डेतसिञ्चतियोषितायां बह्वी प्रजा पुरसा आं सप्रसूताः तस्मा आदृतसाम यजो ॐसि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च संवत्सरस्य मानश्च सोमो यत्र पवते यत्र सूर्यः तस्मा आ च बहुधा सम्प्रसूताः साध्या मनुष्यापथवो वयांसि प्राणापानो विहवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विदिष्य। सप्त प्राणा प्रभुवन्ति तस्मा सप्तार्चिसमिध सप्त होमा सप्त इमे लोका ये सूचरन्ति प्राणा गुहाशयानिहिताः सप्त सप्त अथ समुद्रागृह्यश्च सर्वे स्मास्तद्यद्यन्त्यन्दन्ते सिन्धव सर्वेरूपाः अतश्च सर्वा ओषधयोरसश्च येनैः स भूतैः तिष्ठते शंतरात्मा पुरुष एवेदं विश्वं कर्मतपो ब्रह्मपरामृतम् एतद्यो वेदनिहितं गुहायां सो सोविद्याग्रन्थिं विकीरतिः सोम्याम् आविसन्निहितं गुहाचरं नाम महत्पदमन्त्रैतत्समर्पितम् एतत्प्राणन्निमिन्निमिषश्च यदेतज्जा आनथ तदसद्वरे एण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानां यदर्चीपद्यन् गुणेभ्योढु च यस्मिन् लोकानिहिता लो लोकिनश्च तदेक्षरं ब्रह्म च प्राणस्तद्वाङ्मनः तदेतसत्यं तदमृतं तद्वद्धव्यं सौम्यविद्धि धनुर्गहेत्वोपनिषदं महास्रं शरं सुपासान्निषितं सन्दधीतम् आयव्य तद्भावं गतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्यविद्धि प्रणबोधनुसरोषा आत्मा ब्रह्म तल्लक्ष्यमुच्यते अप्रमत्तेन बेधव्यं सर्वतन्मयो भवेत् यस्मिन् द्यौ पृथवी चान्तरिक्षमूतं मनस प्राणैश्च सर्वैस्तमेवैकं जानथ आत्मानमन्या वाचोऽपिमुञ्चथामृतस्यै स सेतुः अराय रथनाभौ सङ्घता यत्र नाड्य स एषो ॐ तश्च बहुधा जायमानः ॐमित्येवं ध्यायथ आत्मानं सस्तिव वा पाराय तमस परस्ता य सर्वज्ञ सर्वविद्यस्यै स महिमा भुवि दिव्ये ब्रह्मपुरेशे स मनोमय प्राणशरीरनेता प्रतिष्ठितोऽन्ये हृदियं सन्निधाय तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपमूर्तं यद्विभाति विद्यते हृदयगन्ते छिद्यन्ते सर्वसंशया क्षीयन्ते चाश्च कर्माणि तस्मिन् दृष्टे परावरे हिरण्मये परं परे कूशे विरजं ब्रह्म निष्कलम् तश्च ब्रं ज्योतिषां ज्योतिस्तद्यथा आत्मविदो विदुः न तत्र सूर्यो भाति न चन्द्रतारकं ढेमा विद्युतो भान्ति कुतोऽयमग्निः तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ब्रह्मवेदममृतं पुरस्ता आद्ब्रह्म पश्चा आद्ब्रह्म दक्षिणन्तश्चोत्तरेण अधश्चोध्वं च प्रसितं ब्रह्मैवेदं विश्वमिदं वरिष्ठं तृतीयमुण्डकं प्रथमः खण्डः द्वाशपर्णाशयुजा सखाया समानं वृक्षं परिसस्वजाति तयोरन्यापि परं स्वादियत्यन्नस्नन्नन्द्योऽपि चाकशीति माने वृक्षे पुरुषो निमग्नो नीशया आ शोचति मुह्यमान जुष्टं यदा पश्यन्य भीष्मस्य महिमा आनमिति वीतशोक यदा पश्य पश्यति रुक्मवर्णं कर्ता आरमीशं पुरुषं ब्रह्मयोनिं तदा विद्वान् पुण्यपापे विधूय निरञ्जन परमं श्याम्य प्राणोशेषय सर्वभूतैर्विभाति विजानन् विद्वान् भवति नातिवादीन् आत्मकृ आत्मरतिः क्रियावाले स ब्रह्मविदां वरिष्ठः सत्येन लभ्यस्तपशास्ये स आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् अन्तः शरीरे ज्योतिर्मयो हि शुभ्रो य पश्यन्ति यत सत्यमेव जयते नालितं सत्येन कुन्था विततो देवयानः येनाक्रमन् त्रिशयो स्याप्तकामा यत्र तत्तत्यस्य परमं निधानं बृहच्च तद्दिव्यम् अचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति दुरात्सन्दूरें तदिहान्तिके च पश्यन् सुहैव गुहायाम् न चक्षुषा नापि वाचा नान्यै देवै तपसा कर्मणा वां ज्ञानं प्रसादेन विशुद्धसत्त्वं तदस्तु तं तं पश्यति निस् चेतसा वेदितव्यो यस्मिन् प्राणपञ्चधा संविवेश प्राणेश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभत्ये स आत्मां यं यं लोकं मनसा संविभाति विशुद्धसत्त्वकामयति यास्य कामान् तं तं लोकं जयति तास्य कामान् तस्मादात्मज्ञं जर्चयेद्भूतिकामः द्वितीयः खण्डः सवेदये तत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति सुब्रह्म उपासते पुरुषं ये च कमा या कामा आस्ते सुक्रमे तदति ते वर्तन्ते धीरा आह कामान्यकामयते मन्यमान स कामभिर्जायते तत्र तत्र पर्या आप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामा आह नायमात्मा प्रवचेन लभ्यो नायमा न मेधया न महुना श्रुतेन यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनुस्वां नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् एतैरूपायै यत ते यस्तु विद्वां स आत्मा विशति ब्रह्मधाम सम्प्राप्येण मृष्ययो ज्ञानपृप्ता कृतात्मानो वीतरागा प्रसन् प्रशान्ता ते सर्वमं सर्वत प्राप्यधैराज्युक्तात्मान सर्वमेवाविशन्ते वेदान्तविज्ञानसु निश्चितार्था संन्यासयोगाद्यतयशुद्धतत्त्वा ते ब्रह्मलोकेषु परा अन्तकाले परामृता परिमुच्यन्ते सर्वे एव गता का कलाः पञ्चदश प्रतिष्ठा देवास्य सर्वे प्रतिदेवतासु कर्मानुविज्ञानं यश्च आत्मा परिव्यये सर्व एकीभवन्ति यथा नद्य छन्दमाना समुद्रेस्तं गच्छन्ति नाम रूपे विहाय तथा विद्वान् नामरूपाद्विमुक्तपरात्परं पुरुषमुपैत दिव्यं स यो ह वैतत्परमं ब्रह्मवेद ब्रह्मैव भवति नास्या आ ब्रह्मवित्कुली भवति तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो ओ विमुक्तोऽमृतो भवति तदेतद्विचाभ्युक्तम् क्रियान्वन्तः श्रोत्रिया ब्रह्मनिष्ठा स्वयं जहृत एकरसि श्रद्धयन्तः तेषामेवैतां ब्रह्मविद्यां वदैतशिरोवृ व्रतं ब्रत विधिवद्ये स्तु चर्णम् तदेतसत्यंशीरङ्गिराः प्रोवाच तदैतचर्णे व्रतोऽधीते नमा परं ऋषिभ्यो नमः परं ऋषिभ्यः ॐ भद्रं कर्णेभिष्णिजामदेवाः भद्रं पश्य माच्छभिजत्राः चिरैरङ्गै एतुष्टुवावंशस्तनोभिः यशे मदेवहितैजदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्तिन न पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनैवे स्वस्ति नो बृहस्पतिदधातु ॐ शान्तिः शान्ति शान्तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु